कृष्णयजुर्वेदे क्रमपाठे द्वितीयकाण्डे षष्ठः प्रश्नः प्रारम्भः समिधो यजति समिध इति यजति वसन्तम् वसन्तमेव एव तॄणाम् तृणामव रघोरुन्धे वृन्धे तनूनपातम् यजति तनूनपातमिति तनूनपातम् यजति ग्रीष्मम् ग्रीष्ममेव एवाव एवा, रघोरुन्धे वृन्धयिडः यजति यजति वरुषाः वर्षा एव हेवाव अवरुन्धे वृन्धे बर्हिः बर्हिर्यजति यजति शरदम् शरदमेव एवाव अवरुन्धे वृन्धे स्वाहाकारम् स्वाहाकारम् यजति स्वाहाकारमिति स्वाहाकारम् यजति हेमन्तम् हेमन्तमेव हेवाव अपरुन्धे वृन्धे तस्मात् तस्मात् स्वाहाकृताः स्वाहाकृता हेमन् स्वाहाकृता इति स्वाहाकृताः हेमन् पशवः पशवो वा अपसीदन्ति सीदन्ति समिधः समिधो यदि समिध इति संविधः यजत्विषसः विषस एव देवतानाम् देवतानामव अवरुन्धे रुन्धे तनोनपातम् तनोनपातैर्यजति तनो नपातनोनपातम् यजति यज्ञम् यज्ञमेव एवाव अवरुन्धे रुन्धयिडः इडो यजति यजति पशून् पशूनेव एवाव अवरुन्धे वृन्धे बर्हिः बर्हिर्यजति यजति प्रजाम् प्रजामेव प्रजामिति प्राजाम् एवाव अवरुन्धे वृन्धे समानयते समानयत उपभृतः समानयत इति सम्मानयते उपभृतस्तेजः उपभृत इत्युवाभृतः वा आज्यम् आज्यम् प्रजाः प्रजा बर्हिः प्रजा इति प्राजाः बर्हिः प्रजासु प्रजास्वेव प्रजास्विति प्राजासु एव तेजः तेजो वाचमेव एवाव अवरुन्धे रुन्धे दश दशसम् सम्पद्यन्ते प्रपद्यन्ते दशाक्षरा दशाक्षरा विराट् दशाक्षरेति दशाक्षराः विराड्न्नम् विराडिति वीराट् अन्नम् विराट् विराट् विराजाः विराड्ति वीराट् विराज इव विराजेति विराजाः एवान्नाद्यम् अन्नाद्यमव अन्नाद्यमित्यन्नाद्यम् रुन्धे वृन्धे समिधः समिधो यजति समिध इति संविधः यस्मिन् तस्मिन्नेव एव लोके लोके प्रति प्रतिष्ठति तिष्ठति तनोनपातम् तनुनपातम् यजति तनूनपातमिति तनूनपातम् यज्ञे यज्ञ एव एवान्तरिक्षे अन्तरिक्षे प्रति प्रतिष्ठति तिष्ठति इडो यजति यजति पशुषु पशुष्वेव एवम् प्रति प्रतिष्ठति ति ति ति ति तिष्ठति बर्हिः बर्हिर्यजति यजति ये य एवदेवजाना आह एव जानाः पन्थानः एव जानाञ्जिदेवजाना आह पन्थानस्तेषु तेष्वेव एवं प्रति प्रतिष्ठति तिष्ठति स्वाहाकारम् साहाकारम् यजति साहाकारमिति स्वाहाकारम् यजति स्वर्गे स्वर्ग एव स्वर्ग इति सुवहागे एव लोके लोके प्रति प्रतिष्ठति तिष्ठत्येतावन्तः एतावन्तो वै वै देवलोकाः देवलोकास्तेषु देवलोका इति देवालोकाः तेष्वेव एव यथापूर्वम् यथापूर्वम् प्रति यथापूर्वमिति यथापूर्वम् प्रतितिष्ठति तिष्ठति देवासुराः देवासुरा येषु देवासुरा इति देवासुराः येषु लोकेषु लोकेष्वस्पर्धन्त अस्पर्धन्त ते ते देवाः देवाः प्रयाजैः प्रयाजैरेभ्यः प्रयाजैरिति प्रायाजैः एव लोकेभ्यः लोकेभ्योऽसुरान् असुरान्त्र प्राणदन्त अनुदन्तत तत्प्रयाजानाम् प्रयाजानाम् प्रयाजत्वम् प्रयाजानामिति प्रायाजानाम् प्रयाजत्वम् यस्य प्रयाजत्वमिति प्रयाजात्वम् यस्यैवम् एवम् विदुषः विदुषः प्रयाजाः प्रयाजा युज्यन्ते प्रयाजा इति प्रायाजाः युज्यन्ते प्र प्रयभ्यः येभ्यो लोकेभ्यः लोकेभ्यो भ्रातृव्यान् भ्रातृव्यान् मुदते मुदते अभिक्रामम् अभिक्रामम् जहोति अभिक्राममित्यभिक्रामम् जहोत्यभिजित्यै अभिजित्यै यः अभिजित्यः इत्यभिजित्यै यो वै वयि प्रयाजानाम् प्रयाजानाम् मिथनम् प्रयाजानामिति प्रायाजानाम् मिथनम् वेद वेदप्रजया प्रजया पशुभिः प्रजयेति प्राजया पशुभिर्मिथुनैः पशुभिरिति पशुभिः मिथुनैः जायते जायते समिधः समिधो बह्वीः समिध इति समिधः बह्वीरिव युवयजति यजति तनूनपातम् तनूनपातमेकम् तनूनपातमिति तनूनपातम् एकमिव इव मिथुनम् मिथुनम् तत् तदिडः इडो बह्वीः बह्वीरिव युवयजति यजति बर्हिः बर्हिरेकम् एकमिव इव मिथुनम् मिथुनम् तत् तदेतत् एतद्वै वै प्रयाजानाम् प्रयाजानाम् मिथुनम् प्रयाजानामिति प्रयाजानाम् मिथुनम् यः यदेवम् एवम् वेद वेदप्रा प्रप्रजयाः प्रजया पशुभिः प्रजयति प्राजया पशुभिर्मिथुनैः पशुभिरिति पशुभिः मिथुनैर्जायते राजते देवानाम् देवानाम् वै वा अनिष्टाः अनिष्टा देवताः देवतासन् आसन्नथ अथासुराः असुरायज्ञम् यज्ञमजिघागम्सन् अजिघागुंसन् रे ते देवाः देवागायत्रीम् गायत्रीम् अहम् पञ्च पञ्च अक्षराणि अक्षराणि प्राचीनानि प्राचीनानि त्रीणि त्रीणि प्रतीचीनानि प्रतीचीनानि ततः ततो वर्म वर्मयज्ञाय यज्ञायाभवत् अभवद्वर्म वर्म प्रयाजानुयाजा युज्यन्ते प्रयाजानुयाजादिति प्रयाजानुयाः युज्यन्ते यज्ञाय क्रियते क्रियतेव्याभिभूत्यै जा। जा भ्रातव्याभिभूत्यै तस्मात् भ्रातव्याभिभूत्या इति भ्रातव्या अभिभूत्यैः तस्माद्वरोथम् वरोथम् पुरस्तात् पुरस्ताद्वर्षीयः वर्षीयः पश्चात् पश्चाद्धृसीयः हृसीयो देवाः देवा वै वै पुरा पुरा रक्षोभ्यः रक्षोभ्यैति रक्षो अभ्यैति रक्षःभ्यः इति स्वाहाकारेण स्वाहाकारेण प्रयाजेषु स्वाहाकारेणेति स्वाहाकारेण प्रयाजेषु यज्ञम् प्रयाजेष्विति प्रयाजेषु यज्ञकम् सर्गस्थाप्यम् सर्गस्थाप्यमपश्यन् सर्गस्थाप्यमिति संस्थाप्यम् अपश्यन्तम् तद् स्वाहाकारेण स्वाहकारेण प्रयाजेषु स्वाहकारेणेति स्वाहाकारेण प्रयाजेषु सम् प्रयाजेषुति प्रयाजेषु समस्थापयन् अस्थापयन्ति इवै वा एतत् एतद्यज्ञम् यज्ञम् छिन्दन्ति छिन्दन्ति यत् यत्साहकारेण साहकारेण प्रयाजेषु स्वाहकारेणेति स्वाहाकारेण प्रयाजेषु सर्गस्थापयन्ति प्रयाजेष्विति प्रयाजेषु सर्गस्थापयन्ति प्रयाजान् सर्गस्थापयन्तीति संस्थापयन्ति प्रयाजादिष्ट्वा इष्ट्वा हवेदुंषि अवेदिष्यभि अभिघारयति घारयति यज्ञस्य यज्ञस्य सन्तत्यै सन्तत्या अथोः सन्तत्या इति सन्तत्यै अथोहविः अथो इत्यथो हविरेव एवातः अकरथो अथो यथा पूर्वम् अथो इत्यथो यथापूर्वोप यथापूर्वमिति यथा पूर्वम् उपैति एति पिता पिता वै वि, वै प्रयाजाः प्रजा प्रयाजा प्रयाजादितिप्रयाजाः प्रजा नो प्रजेति प्राजा ननु याजा यत् नो याजादित्यनो याजाः यप्रयाजानयाजादिष्ट्वा इष्ट्वा हवीगुंषि कवेदुष्यभिघारयति अभिघारयति पिता अभिघारयतीत्यभिघारयति पितैव एव तत् तत्पुत्रेण पुत्रेण साधारणम् साधारणम् कुरुते कुरुते तस्मात् तस्मादाहुः आहुर्यः यश्चैवम् एवम् वेद वेदयः यश्च न कथा कथा पुत्रस्य पुत्रस्य केवलं केवलम् कथा कथासाधारणम् साधारणम् पितुः पितुरिति यत्कन्नम् अस्कन्नमेव एव तत् तद्यत् यत्प्रयाजेषु राजेष्विष्टेषु प्रयाजेष्विति प्रयाजेषु इष्टेषु स्कन्दति स्कन्दति गायत्री गायत्र्येव एवतेन तेन गर्भम् धत्ते धत्ते सा प्रजाम् प्रजाम् पशून् यजमानाय यजमानायप्रजनयति जनयतीति जनयति चक्षुषि वै चक्षुषी इति चक्षुषि वा एते एते यज्ञस्य एते इत्येते यज्ञस्य यत् यदाज्यभागौ आद्यभागौ यत् आद्यभागावित्याज्यभागौ यदाज्यभागौ आद्यभागौ यजति आद्यभागावित्याज्यभागौ यजति चक्षुषी चक्षुषी एव चक्षुषी इति चक्षुषी एव तत् तद्यज्ञस्य यज्ञस्य प्रति प्रतिदृधाति दृधाति पूर्वार्धे पूर्वार्धे जुहोति पूर्वार्ध इति पूर्वार्धे जुहोरितस्मात् तस्मात् पूर्वार्धे पूर्वार्धे चक्षुषि पूर्वार्ध पूर्वार्धे चक्षुषी प्रवाहुक चक्षुषी इति चक्षुषि प्रवाहुग्जुहोति प्रवाहुरिति प्रावाहुक जुहोरितस्मात् तस्मात् प्रवाहुक् प्रबाहुचक्षुषी प्रबाहुविति प्रबाहुक् चक्षुषी देवलोकम् चक्षुषी इति चक्षुषी देवलोकम् वै देवलोकमिति देवालोकम् देवा वा अग्निना अग्निना यजमानः यजमानो नु अनुपश्यति पश्यति पितृलोकम् पितृलोककम् सोमेन पितृलोकमिति पितृलोकम् सोमेनोत्तरार्धे उत्तरार्धे अग्नये उत्तरार्ध इत्युत्तरार्धे अग्नये जुहोरि जुहोरि दक्षिणार्धे दक्षिणार्धे सोमाय दक्षिणार्थ इति दक्षिणार्थे सोमायैवम् एवमिव इव हि हीमौ इमौ लोकौ लोकावनयोः अनयोर्लोकयोः लोकयोरनुक्षात्यै अनुक्षात्यै राजानौ अनुक्ष्यात्यावृत्त्यनुक्षात्यैः राजानौ वै वा एतौ एतौ देवतानाम् देवतानाम् यत् यदग्निसोमौ अग्नीशोमावृन्तरा अग्नीसोमावृत्त्यग्नीसोमौ अन्तरा देवताः देवता युज्येते युज्येते देवतानाम् युज्येते इति इज्येते देवतानाम् विधृत्यै विधृत्यै तस्मात् विधृत्या इतिधृत्यै तस्माद्राज्ञाः राज्ञामदर्श्याः अनुर्श्याधृताः विधृता ब्रह्मवादिनः विधृता इति विधृताः ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति किम् तत् तद्यज्ञे यज्ञे युजमानः युजमानः कुरुते कृतेन येनान्यतो यतः अन्यतो जतश्च अन्यतो जत इत्यन्यतः दतः च पशूः पशोन्दाधार आधारो भयतोदतः उभयतो जतश्च उभयतो जत इत्यभयतः दतः आद्यभागस्य दुषाणेन आद्यभागस्येत्याज्याभागस्य विषाणेन यजति यजदितेन तेन अन्यतो दतः अन्यतो दतोदाधार अन्यतो यत इत्यन्यतः दतः आधारर्थम् रचमनोच्य अनोच्य हविषः अनोच्येत्यनोच्य हविषरुचा ऋचा यजति यजदितेन तेनोभयतो दतः उभयतो दतोदाधार मूर्धन्वतीति मूर्धन्वती प्रोणवाक्या भवति प्रोणवाक्येति पुरः अनुवाक्या भवति मूर्धानम् मूर्धानमेव एवैनम् एनकम् समानानाम् समानानाम् करोति करोति नियुत्पत्त्या नियत्पत्या यजति नियुत्पत्तेति नीयत्वत्या यजति भ्रातृव्यस्य भ्रातृव्यस्यैव एव पशून् पशून् नियुवते युवते केशिनम् केशिनगुम्ह तदार्भ्यम् दार्भ्यम् केशी केशीसात्यकामिः सात्यकामिर्वाच सात्यकामिरिति सात्यकामिः उवाच सप्तपदाम् सप्तपदाम् ते सप्तपदामिति सप्तापदाम् ते शक्वरीम् शक्वरी तु श्वः श्वो यज्ञे यज्ञे प्रयोक्ता सेः प्रयोक्ता सेयस्यैः प्रयोक्ता सरिति प्रयोक्ता सेः यस्यै वीर्येण वीर्येण प्रजातान् मुदते प्रति प्रतिदिजनिष्यमाणान् दृश्यमाणा यस्यैः यस्यै वीर्येण वीर्येण उभयोः उभयोर्लोकयोः लोकयोर्ज्योतिः ज्योतिर्धत्ते धत्ते यस्यैः यस्यै वीर्येण वीर्येण पूर्वार्धेन पूर्वार्धेन लद्वान् पूर्वार्धेनेति पूर्वार्थेन लद्वान् भुनक्ति भुरक्ति जघनार्थेन जघनार्थेन धेनुः जघनार्थेनेति जघनार्थेन धेनुरिति प्रस्ताल्लक्ष्मा पुरस्ताल्लक्ष्म पुरोणवाक्यः पुरस्ताल्लक्ष्मेति पुरस्तात् लक्ष्मः पुरोणवाक्या भवति पुरोणवाक्येति पुरः वाक्यः भवति जातान् जातानेव एवम् भ्रातृव्यान् भ्रातृव्यान् प्रणोदने मदन उपरिष्टाल्लक्ष्म उपरिष्टाल्लक्ष्मा याज्याः उपरिष्टाल्लक्ष्मेऽत्र्युपरिष्टात् लक्ष्मा याज्यादिश्यमाणान् जनिष्यमाणानेव एव प्रति प्रति मृदते मृदते पुरस्ताल्लक्ष्म पुरस्ताल्लक्ष्मारोनुवाक्यः पुरस्ताल्लक्ष्मेति पुरस्ताद् लक्ष्मः रोणवाक्या भवति रोणवाक्येति पुरः अनुवाक्यः भवत्यस्मिन् अस्मिन्नेव अस्मिन एव लोके लोके ज्योतिः दुरतिर्धत्ते धत्त दिव उपरिष्टाल्लक्ष्मा उपरिष्टाल्लक्ष्मा याज्ञः उपरिष्टाल्लक्ष्मेत्युपरिष्टाद् लक्ष्मः याज्यामुष्मिन् अमुष्मिन्नेव लोके ज्योतिः ज्योतिर्धत्ते धत्ते ज्योतिष्मन्तौ ज्योतिष्पन्तावस्मै अस्मा इमौ इमौ लोकौ लोकौ भवतः भवतो यः एवम् एवम् वेद एतत् पुरस्ताल्लक्ष्मा पुरस्ताल्लक्ष्मा पुरोणवाक्या पुरस्ताल्लक्ष्मेति पुरस्ताद् लक्ष्मः पुरोणवाक्या भवति पुरोणवाक्येति पुरः अनुवाक्या तस्मात् तस्मात् पूर्वार्थेन पूर्वार्धेन लड्वान् पूर्वार्धेनेति पूर्वार्थेन लड्वान् भनति भनत्युपरिष्टाल्लक्ष्मा उपरिष्टाल्लक्ष्मा याज्या उपरिष्टाल्लक्ष्मेत्युपरिष्टात् लक्ष्माः याज्या तस्मात् तस्माज्जनार्थेन जघ्नार्थेन धेनुः जघनार्थेनेति जघनार्थेन धेनुर्यः एवम् एवम् वेद वेदभुङ्कः भुङ्क एनम् एनमेतौ एतौ वज्रः वज्र आज्यम् आज्यम् वज्रः वज्राज्यभागौ आज्यभागौ वज्रः आद्यभागावित्याज्यभागौ वज्रो वषट्कारः वषट्कारस्तृतम् वषट्कारेति वषटकारः स्तृतमेव श्रुतमिति त्रेवृतम् एव वज्रम् वज्रम् संहृत्य भ्रातुर्व्याय संहृत्येति संहृत्य भ्रातुर्व्याय प्रहरतिसंवत्कारम् अचम्बत्कारमवगोर्य अचम्बत्कारमित्युसंवटकारम् अपगोर्य षट् अपगौर्येति वा गौर्य षट् करोति करोति स्तृत्यै सृत्यै यायत्री यायत्री पुरोन्वाक्याः पुरोन्वाक्या भवति पुरोन्वाक्येति पुनः अनवाक्याः भवति त्रिष्टुक् त्रिष्टुग्याज्याः याध्या ब्रह्मणे ब्रह्मणेव एव क्षत्रम् क्षत्रमन्वारम् भजति अन्वारम् भजति तस्मात् अन्वारम् भयति आरम्भयति तस्मात् ब्राह्मणः ब्राह्मणो मुख्यः मुख्यः भवति भवति यः एवम् वेद वेदप्र त्रैव एवैनम् एनम् ब्रोणुवाक्यया प्रोणुवाक्ययाः प्रोणुवाक्ययेति पुनः अणवाक्यया आह प्र प्रणयति नयति याज्ञया याज्ञया गमयति गमयति विषत्कारेण विषत्कारेण विषत्कारेणेति विषट्कारेण अयव एवैनम् एनम् ब्रोणुवाक्यया पुरोवाक्यया दत्ते पुरोन्वाक्ययेति पुनः अनुवाक्यया दत्ते प्रयच्छति यच्छति याज्ञया याज्ञया प्रति प्रतिवषत्कारेण वषत्कारेण स्थापयति वषत्कारेण इति षकारेण स्थापयति त्रिपदाः त्रिपदाः पुरोनुवाक्याः त्रिपदेति त्रिपदाः पुरोनुवाक्या भवति पुरोनुवाक्येति पुरः अनवाक्याः भवति त्रयः इमे इमे लोकाः लोकादिषु एष्वेव एव लोकेषु लोकेषु प्रति प्रतिष्ठति तिष्ठति चतुष्पदा चतुष्पदा याद्याः चतुष्पदे द्विचतुः पदाः याज्या चतुष्पदः चतुष्पद एव चतुष्पदे द्विचतुः पदः एव यक्षर इति द्वि अक्षरः विषट्कारो द्विपाद् विषट्कार इति विषट्कारः द्विपाद्यमानः द्विपाद् यजमानः पशुषु पशुष्वेव एवोपरिष्टात् उपरिष्टात्पति प्रतिष्ठति तिष्ठति गायत्री गायत्री पुरोनुवाक्याः पुरोनुवाक्येति पुरः अनुवाक्याः भवति याज्याः याज्यैषा एषा वै वै सप्तपदा सप्तपदा शक्वरी सप्तपदे सप्तापदाः शक्वरी यत् यद्वै वा एतयाः एतया देवाः देवाशिक्षन् अशिक्षन् तत् तदशक्नुवन् अशक्नुवनुयः य एवम् वेद वेद शक्नोति शक्नोत्येव एव यत् यच्छिक्षति शिक्षतीति शिक्षति प्रजापदद्देवेभ्यः प्रजापदधिप्रजा देवेभ्यो यज्ञान् यज्ञान्यादिशत् यादिषत्सः यादिशदि यादिशद आदिशत् स आत्मन् आत्मन्नाज्ञम् आज्यमधत्तम् तम् देवाः देवाब्रुवन् ब्रुवन्नेषः एष वाव वावयज्ञः यज्ञो यदाज्यम् आज्यमपि अप्येव एव नः नोऽत्र अत्रा अस्तु अस्ति इति सः सोऽब्रवीत् अब्रवीद्यजान् यजानज्यभागौ आज्यभागावुप आद्यभागावित्याज्यभागौ उपस्रणान् स्रावभि अभिघारयान् धारयानिति इति तस्मात् तस्माद्यजन्ति यजन्त्यज्यभागौ आज्यभागावुप आज्यभागावित्याज्यभागौ उपसृणन्ति सृणन्त्यभिनभिघारयन्ति धारयन्ति ब्रह्मवादिनः ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति कस्मात् तस्मात् सत्यात् सत्याद्यातयामानि यातयामान्य यातयामानीति यातायामानि अन्यानि हवीदंसि हवीश्रयातयामम् ययातयाममाज्यम् अयातयाममित्यजातायामम् आज्यमिति इति प्राजापत्यम् प्राजापत्यमिति प्राजापत्यमिति प्राजापत्यम् इति ब्रूयात् ब्रूयादयातयामा अयातयामाहि अयातयामेत्यजातायामा हि देवानाम् देवानाम् प्रजापतिः प्रजापतिरिति प्रजापतिरिति प्रजापतिः इति छन्दागुंसि छन्दागुंसि देवेभ्यः देवेभ्योप अपाक्रामन् अक्रामन्न नभः ओ भागानि भागानि हव्यम् हव्यम् वक्ष्यामः वक्ष्याम इति तेभ्यः तेभ्यः एतत् एतच्चतुरवत्तम् चतुरवत्तमधारयन् चतुरवत्तमिति चतुः अवत्तम् अधारयन् रोणुवाक्यायै रोणुवाक्यायै याध्यायै क्रोणवाक्यायवाक्यायै याज्यायै देवतायै देवतायै वषट्काराय ऋषट्काराय यत् ऋषट्कारायकाराय यच्चतुरवत्तम् चतुरवत्तम् जुहोति चतुर्वमिति चतुरवत्तम् जुहोति छन्दरागंसि छन्दरागस्येव एव तत् तत्प्रेणादि प्रेणादितानि तान्यस्य तस्य प्रीतानि प्रीतानि देवेभ्यः देवेभ्यो भव्यम् काव्यम् वहन्ति वहन्त्यङ्गिरसःङ्गिरसो वै वा इतः इदमुत्तमाः उत्तमाः स्वर्गम् उत्तमायत्युदोत्तमाः स्वर्गम् लोकम् स्वर्गमिति स्वभागम् लोकमायन् आयन्तत् तदृषयः ऋषयो यज्ञवास्तु यज्ञवास्त्वभ्यवायन् यज्ञवास्तु इति यज्ञावास्तु अभ्यवायन्ते अभ्यवायन् इत्यभि अभायन् ते कूर्मम् भूतम् भूतकम् सर्पन्तम् सर्पन्तम् तम् तमब्रुवन् ब्रुवन् इन्द्राय इन्द्राय ध्रुयस्व ध्रियस्व बृहस्पतये बृहस्पतये ध्रुयस्व ध्रुयस्व विश्वेभ्यः विश्वेयेभ्यो देवेभ्यः देवेभ्यो अध्वजस्व धृयस्वेति ईदिशः स न नाध्रुयत अध्रियतम् तमब्रुवन् ब्रुवन् अग्रे अग्रे ध्रुजस्व धृयस्वेति ईदिशः सोऽ अग्रे ध्रियत अध्रियते यदा आग्नेयः आग्नेयो अष्टाकपालः अष्टाकपालो मावास्यायाम् अष्टाकपाल इत्यष्टाकपालः मावास्यायाम् च पौर्णमास्याम् पौर्णमास्याम् च पौर्णमास्यामिति पौर्णामास्याम् क्षितः अक्षितो भवति भवति सुवर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य यदि सुभागस्य लोकस्याभिजित्यै अभिजित्यैतम् अभिजित्यादित्यभिजित्यै तमब्रुवन् अब्रुवम् इत्यनुपाक्तः अनुपाक्तोभूवम् अनुपाक्त इत्यनुपात्तः अभूवमिति इत्यब्रवीत् अब्रवीद्यथा यथाक्षः अक्षोऽनुपाक्तः अनुपाक्तो वाक्षति अनुपाक्त इत्यनुपात्तः अवार्च्छत्येवम् अवार्च्छतीत्यवार्च्छति एवमव अवारम् आवरति इत्युपरिष्टाद् उपरिष्टादभ्य अभ्यद्याधस्तात् अभ्यद्य अधःस्यादुप उपानक्ति सुवर्गस्य सुवर्गस्य लोकस्य सुवर्गस्य इति सुभागस्य लोकस्य समस्यै समष्यै सर्वाणि समस्यादिति साक्ष्यैः सर्वाणि कपालानि कपालान्यभि अभिप्रथयति प्रथयति तावदस्पुरोडाशान् रोडाशानमुष्मिन् नमुष्मिन्लोके लोकेऽभि अभिजयति यदि यः यो विदग्धः विदग्धः सः विदग्ध इति बीदग्धः स नैरृतः नैरृतोयः नैरृत इति नैः ऋतः यो श्रुतः अश्रुतः सः स रौद्रः रौद्रोयः यः श्रुतः श्रुतः सः स स देवः अविदहता श्रुतम् कृत्यः अविदहतेत्यबीदहता श्रुतङ्कृत्यः सदैवत्वाय श्रुतङ्कृत्य इति श्रुतम् कृत्यः सदैवत्वाय भस्मनः सदैवत्वायेऽपि सदैवत्वाय भस्मनाभि अभिभाषयति भासयति तस्मात् तस्मान्मापुंसेन मा पुंसेनास्थि अस्थिच्छन्नम् छन्दम् वेदेन वेदेनाभि वेदे अभिभाषयति भासयति तस्मात् तस्मात् केशैः केशैष्यः शिरश्छन्नम् छन्नम् प्रच्युतम् प्रच्युतम् वै प्रच्युतमिति प्राच्युतम् वा यत् एतदस्मात् अस्माल्लोकात् लोकादगतम् अगतम् देवलोकनम् देवलोकम् यत् देवलोकमिति देवालोकनम् यच्छ्रुतम् श्रुतम् हविः अभिरनभिघारितम् अनभिघारितमभिघार्य अनभिघारितमित्यनभिघारितम् अभिघार्योत् अभिघार्येत्यभिघार्य उद्वासयति वासयति देव देवत्रैव देवत्रेति देवात्रा एवेनत् एनद्गमयति गमयति यदि यद्येकम् एकम् कपालम् कपालम् नश्येत् नश्येदेकः एको मासः मासः संवत्सरस्य संवत्सरस्यानवेदः संवत्सरस्येति संवत्सरस्य अनवेदः स्यात् अनवेद इत्यनवावितः स्यादथ अथ विजमानः यजमानः प्रमीयेत नीये द्वे द्वे नश्येताम् द्वे इति द्वे नश्येताम् द्वौ द्वौ मासौ मासौ संवत्सरस्य संवत्सरस्यानवेतौ संवत्सरस्येति संवत्सरस्य अनवेतौ स्याताम् अनवेताविद्यनव स्यातामथ अथ यजमानः यजमानप्रमीयेत नीये सङ्ख्याय सङ्ख्यायोर् सङ्ख्यायेति सङ्ख्याय उद्वासयदि वासरि यजमानस्य यजमानस्य गोपीधाय गोपीधा यदि इति नश्येत् नश्येदाश्विनम् अश्विनम् द्विकपालम् एकपालन्निः निकपालमिति द्वैकपालम् निर्वपेद्वेद्या वा पृथिव्यम् द्यावापृथिव्यमेककपालम् द्यावापृथिव्यमिति द्यावापृथिव्यम् एककपालमश्विनौ एककपालमित्येकागपालम् अश्विनौ वै वै देवानाम् देवानाम् भिषुः भिषु ताभ्याम् ताभ्यामेव एवास्मैः अस्मै भेषकम् भेषणम् करोति करोति द्यावापृथिव्यः या वा एककपालः या वा प्रसि इति एककपालो भवति एककपाल इत्येकः कपालः भवत्यनयोः अनयोरपै वा एतत् एतन्नश्यति नश्यति यत् यन्नश्यति नश्यत्यनयोः अनयोरेव एैनत् येन भिन्दति निन्दति प्रतिष्ठित्यै प्रतिष्ठित्या इति प्रतिष्ठित्यै सवितः प्रसवे प्रसवे इति प्रसव इति प्रासवे दत्ते प्रसूत्यै प्रसूत्याश्विणोः प्रसोत्या अश्विनोर्बाहुभ्याम् बाहुभ्रामि बाहुभ्रामिति बाहुभ्याम् इत्याह आहाश्विनौ अश्विनौ हि देवानाम् देवानामद्धर्युद्धर्युः आस्ताम् अद्धर्यु इत्यद्धर्युः आस्ताम् पोष्णः पोष्णो हस्ताभ्याम् हस्ताभ्यामिति इत्याह आहयत्यै यत्थि शतभृष्टिः शतभृष्टिरसि शतभृष्टिरिति शताभृष्टिः असि वानस्पत्यः वानस्पत्यो द्विषतः इत्याह आहवज्रम् वज्रमेव एव तत् तत्सम् सर्गष्यति शतिभ्रातृव्याय भ्रातृव्याय प्रहरिष्यन् प्रहरिष्यन् प्रहरिष्यन्निति प्रहरिष्यन् स्तम्भयजुर्हरति स्तम्भयजुरिति स्तम्बयजुः हरद्येतावती एतावती वै वै पृथिवी पृथिवी यावती यावती वेदिः वेदिस्तस्याः तस्याः एतावतः एतावत एव भ्रातृल्यम् भ्रातृव्यन्निः निर्भजति भजरस्मात् तस्माभागम् भागन्निः निर्भजन्ति भजन्ति त्रिः त्रिर्हरति अरतित्रयः लोका एभ्यः एभ्य एवैनम् एनम् लोकेभ्यः लोकेभ्यो निः निर्भजति भजति तूष्णीम् तूष्णीम् चतुर्थम् तदर्थकम् हरति हरत्यपरिमितात् अपरिमितादेव अपरिमितादित्यपरिमितात् एवैनम् एनन्निः निर्भजति भजत्य उद्भन्ति हन्ति यत् यदेव एवास्याः अमेध्यन्तत् तदपहन्ति हन्त्यन्ति हन्ति तस्मात् तस्मादोषधयः ओषधयः पराः परा भवन्ति भवन्ति मूलम् ओलञ्चनत् शिरन्ति भ्रादुर्व्यस्य भ्रातृर्यस्यैव एव मूलम् ऊलञ्छिनत् शिरन्तिदेवत्याः इरुदेवत्यादि खाता पितृदेवत्येति पितृदेवत्याः अतिखाते यति अतिखातेत्यति खाताः खाता। यदि खनति खलति प्रजापजनाः प्रजापजना यज्ञमुखेन प्रजापजनेति प्रजापजनाः यज्ञमुखेन संहिताम् यज्ञमुखेनेति यज्ञामुखेन संहितामा संहितामिति संहिताम् आप्रतिष्ठायैः प्रतिष्ठायै खनदि प्रतिष्ठाया इति प्रतिष्ठायैः खनदि यजमानमेव एव प्रतिष्ठाम् गमयति प्रतिष्ठामिति प्रतीस्थाम् नमेति दक्षिणतः दक्षिणतो वर्षीयसीम् वर्षीयसीम् करोति करोति देवयजनस्य देवयजनस्यैव एवयजनस्येति देवयजनस्य एव रूपम् रूपमह अपःपुरीषवतीम् पुरीषवतीम् करोति पुरीषवतीमिति पुरीषावतीम् करोति प्रजा प्रजा वै प्रजेजित्प्रजा वै पशवः पशवः प्रजयाः प्रजयैव प्रजवेचित् प्राजया एनम् पशुभिः पशुभिः पुरीषवन्तम् पशुभिः करोति पुरीशवन्तमिति पुरीषावन्तम् करोत्युत्तरम् उत्तरम् परिग्राहम् हरिग्राहम् परि हरिग्राहमिति परिग्राहम् हरिगृह्णाति गृह्णात्येतावती एतावती वै वै पृथिवी पृथिवी यावती यावती वेदिस्तस्याः तस्या एतावत एव भ्रातृव्यम् भ्रातृव्यम् निर्भज्य परिर्भज्य आत्मनेः निर्भज्येति निभज्य आत्मन उत्तरम् उत्तरम् परिग्राहम् उत्तरोत्तरम् परिग्राहम् परि परिग्राहणि परिग्राहम् परिगृह्णाति गृह्णाति क्रूरम् क्रूरमिव इवै वा एतत् करोति करोति यत् यद्वेदिम् वेदिम् करोति करोति धाः धा असि असि सधा असि सधेदि साधा असीति इति यो युप्यते यो युप्यते शान्त्यैः शान्त्यै प्रोक्षणीः प्रोक्षणीरा प्रोक्षणीरितिप्रोक्षणीः आसादयति साधयत्यापः आभो वै वै रक्षोघ्नैः रक्षोघ्ने रक्षसा रक्षोघ्नेरिति रक्षः रक्षसामपहत्यै अपहत्यै स्थ्यस्य अपहत्या इत्युपाहत्यै स्थ्यस्य वर्त्मन् वर्त्मन् साधयति यज्ञस्य यज्ञस्य संवृत्यै संवृत्येयम् संवृत्यादिसाम् प्रत्यै इदम् दृश्याद् दृश्या तम् तन्ध्यायेर् ध्यायेच्छुता एवैनम् एमर्पयति अर्पयतीत्यर्पयति ब्रह्मवादिनो वदन्ति ब्रह्मवादिने ब्रह्मवादिनः वदन्त्यद्भिः अद्भिरहवीगुंषि अद्भिरित्यतभिः अवेगुंशिप्रोक्षीः प्रोक्षीः केन केनापः अप इति ब्रह्मणा ब्रह्मणेति इति ब्रूजात् ब्रूजादद्भिः अर्भि्यभिः अर्भिरित्यतभिः ह्येव एव हवीगुंषि अवेगुंशि प्रोक्षति प्रोक्षति ब्रह्मणा प्रोक्षतेति प्रोक्षति ब्रह्मणापः अप यद्ध्मा बहिः युद्ध्मा बर्हिः प्र युध्मा बर्हिमा बर्हिः प्रोक्षति उक्षति मेध्यम् एनत् एनत्करोति करोति वेदिम् वेदिम् प्रोक्षति उक्षत्यृक्षा इक्षा वै वा एषा एषा लोमका अलोमकामेध्या अमेध्या यत् यद्वेदिः वेदिर्मेध्याम् मेध्यामेव एवैनाम् एनाम् करोति दिवे दिवे त्वान्तरिक्षाय अन्तरिक्षाय त्वा प्रापृथिव्यै पृथिव्यै इति बर्हिः बर्हि आसाद्यप्र आसाद्येत्या आसाद्य प्रोक्षति रुक्षत्येभ्यः एभ्य एवैनत् एनल्लोकेभ्यः लोकेभ्यः रोक्षति क्रूरम् क्रूरमिव इवै वा एतत् एतत्करोति करोति यत् यत्खनदि खनत्यपः अपोनि निनयति नयति शान्त्यैः शान्ती पुरस्तात् पुरस्तात् प्रस्तरम् प्रस्तरम् गृह्णाति प्रस्तरमिति प्रास्तरम् गृह्णाति मुख्यम् मुख्यमेव एवैनम् एनम् करोति करोतीयन्दम् इयङ्गम् गृह्णाति गृह्णाति प्रजापतिना प्रजापदिना यज्ञमुखेन प्रजापतिनेति प्रजापतिना यज्ञमुखेन संमितम् यज्ञमुखेनेति यज्ञामुखेन संमितम् बर्हिः संमितमिति संवितम् बर्हिः प्रजाः प्रजा वै वै बर्हिः बर्हिः पृथिवी पृथिवी वेदिः वेदिः प्रजाः एव पृथिव्याम् पृथिव्याम् प्रति प्रतिष्ठापयति स्थापयत्यनतिदृश्यम् अनदृश्यद्य सृणादि अनतिदृश्यमित्यनतिदृश्यम् सृणादिप्रजयाः प्रजयैव प्रजयेति प्राजयः एवेनम् एनम् पशुभिः पशुभिरनिदृश्यम् पशुभिरिति पशुभिः अनदिश्यम् करोति अनतिदृष्ण्यमित्यनतिदृश्यम् करोत्युत्तरम् उत्तरम् परीषः उत्तरमित्योत्तरम् परीषः प्रस्तरम् साधयति प्रस्तरमिति साधयति प्रजाः प्रजा वै वै बर्हिः बहिर्यजमानः यजमानः प्रस्तरः प्रस्तरो यजमानम् प्रस्तर इति प्रास्तरः यजमानमेव एवायजमानात् यजमानादुत्तरम् उत्तरम् करोति उत्तरयतिरोतरम् करोति तस्मात् तस्माद्यजमानः यजमानो यजमानात् अयजमानादुत्तरः उत्तरोऽन्तः उत्तरयति दोतरः अन्तर्दधाति दधा दिव्यावृत्ति व्यावृत्त्या अनक्ति व्यावृत्या इति आवृत्ति अनति हविष्कृतम् हविष्कृतमेव हविष्कृतमिति हविहेकृतम् एवैनम् एनकुम् स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति स्वहागम् लोकम् गमयति गमयति त्रेधा एधानक्ति अनक्ति त्रयः त्रय इमे लोकाः लोका एभ्यः एभ्य एवैनम् एनम् भावेभ्यो ने अनर्थिना न प्रति प्रतिशुणाति श्रदयत् यत्प्रतिशीयात् प्रतिशृयात् अनोर्ध्वम् भावुकम् प्रतिशृणीयादिति प्रतिशृयात् अनोर्ध्वम् भावकम् यजमानस्य अनोर्ध्वम् भावकमित्यनोर्ध्वम् यजमानस्य स्यात् स्यादुपरि प्रहरति अनर्त्युपरि उपरि वा इव स्वर्गः स्वर्गो लोकः स्वर्ग इति स्वभागः लोकोनि नियच्छति यच्छति वृष्टिम् वृष्टिमेव एवास्मैः अस्मैः नियच्छति यच्छति न आत्यग्रम् अत्यग्रम् प्र अत्यग्रमित्यति अग्रम् प्रहरेत् प्रहरेद्यत् यदत्यग्रम् अत्यग्रम् प्रहरेत् प्रत्यग्रमित्यति थी अग्रम् प्रहरेदत्यासारिणीः अग्रम. प्रहरेदिति अग्रम, प्रहरेत् प्रत्यासारिण्यद्धर्योः प्रत्यासारिणी इत्यति र्योर्नाशका नाशका स्यान्न न पुरस्तात् पुरस्तात् प्रति प्रत्यस्येत् अस्येद्यस्तात् पुरस्तात् प्रत्यस्येत् प्रत्यस्येत्स्वर्गात् प्रत्यस्येदिति प्रति अस्य स्वर्गादिति स्वभागात् लोकाद् यजमानम् यजमानम् प्रति प्रतिवृदेत् प्राञ्चम् प्राञ्चम् प्र प्रहरति हरति यजमानम् यजमानमेव एव सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति सुभागम् लोकम् गमयति गमयैर्न न विश्वञ्चम् विश्वञ्चम् वियात् युयाद्यत् यद्विश्वञ्चम् विश्वञ्चम् वि युयात् युयात्स्त्री युयादिति वि युजात् युजात स्त्रियस्य अस्य जायेत जायेतोर्ध्वम् ऊर्ध्वमुत् उद्यौति यौत्योर्ध्वम् ऊर्ध्वमिव इव हि हि पुंसः पुंसः पुमान् मानेव एवास्य अस्य जायते जायते यत् यत्स्केन स्केन वा वोपवेशेण उपवेशेण वा उपवेशेणेत्पा युप्येत यो युप्येतस्त्रितिः स्त्रिरेव एवास्य तस्य सा हस्तेन यो युप्यते यो युप्यते यजमानस्य विजमानस्य वो बीथाय वो बीथाय ब्रह्मवादिनः ब्रह्मवादिना वदन्ति वदन्ति किम् यज्ञस्य यज्ञस्य यजमानः यजमान इति प्रस्तरः प्रस्तर इति प्रस्तर इति प्रास्तरः इति तस्य तस्य क्व क्व सुवर्गः स्वर्गो स्वर्ग इति सुवहागः लोक इति आहवनीय इति आहवनीय इत्याहवनीयः इति ब्रूयात् ब्रूयाद्यत् यत्रस्तरम् प्रस्तरमाहवनीय प्रस्तरमिति प्रास्तरम् आहवनीय प्रहरति आहवनीय इत्याहवनीये प्रहरति यजमानम् प्रहरतीति प्राहरति यजमानमेव एव सुवर्गम् सुवर्गम् लोकम् सुवर्गमिति सुहागम् गमयति गमयति वि इवै वा एतत् एतद्यजमानः यजमानो दिशते दिशते यत् युप्रस्तरम् प्रस्तरम् योजुप्यन्ते प्रस्तरमिति प्रास्तरम् अनुप्रहरतिशान्त्य इशान्त्या अनारम्भणः अनारम्भण इव अनारम्भण इव वै एतर्हि एतर्ष्यद्धर्युः अध्वर्युः सह स ईश्वरः ईश्वरो वेपणः एपणो भवितोः भवितोर्धुवा ध्रुवासि असीति इतीमाम् इमामभि इमाम अभिमृशति मृषतीयम् इयम् वै वै ध्रुवा ध्रुवा स्याम् एव प्रति प्रतिष्ठति तिष्ठति न पेपनः पेपनो भवति भवत्य अग्निरिति अग्निरित्यग्नित्याह आहरत् ब्रूयात् ब्रूयादगन् अगम्यग्निः अग्निरिति इत्यग्नौ अग्नावग्निम् अग्निम् गमयेत् गमयेनिः निर्यजमानम् यजमानगम् स्वर्गात् स्वर्गाल्लोकात् स्वर्गादिति स्वहागात् लोकाद्भजेत् भजेदगम् अगन्निति इत्येव एव ब्रूजात् ब्रूजाद्यजमानम् यजमानमेव एव स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति स्वहागम् लोकम् गमयति गमयतीति गमयति अर्गे स्त्रियः त्रयोज्याजागुंसः जाजागुंसो भ्रातरः भ्रातर आसन् आसन्ते ते देवेभ्यः देवेभ्यो हव्यम् हव्यम् वहन्तः वहन्तः प्रमीयन्त अमीयन्तसः सोऽग्निः अग्निरभिभेद अभिभेदित्थम् इत्थम् वाव वावस्याः स्यार्तिम् आर्तिमा आरिष्यति अरिष्यतीति इति सः स निलायत निलायतसः सोऽपः प्राविशत् अविषत्तम् तम् देवताः देवताः प्रैषम् प्रैषमैच्छन् प्रैषमिति प्र एषम् ऐच्छन्तम् तम् मत्स्यः मत्स्यः प्र प्राब्रवीत् अब्रवीत् अमसरत् असरद्भ्याधिया धियाधिया ध्याधियेति धिया अभोष इति तस्मात् तस्मान्मत्स्यम् मत्स्यम् धिया धिया धियाधिया घ्नन्दि धियाधिेति धिया धिया घ्नन्दिशब्दः शब्दो हि इतम् तमणो अन्वविन्दन् अविन्दन्तम् तमब्रुवन् अब्रुवन्नुप उपनः न आवर्तस्व वर्तस्व हव्यम् हव्यन्नः नो अहेति इति सः सोऽब्रवीत् अब्रवीद्वरम् अरम् वृणै यदेव एव गृहीतस्य गृहीतस्याहुतस्य अहुतस्य बहिःपरिधि बहिःपरिधिः स्कन्धात् बहिःपरिधिः परिधि स्कन्धात्तत् तन्मे मे भ्रातृणाम् भ्रातृणाम् भागधेयमसत् भागधेयमिति भागाधेयम् असदिति इति तस्मात् तस्माद्यत् यद्गृहीतस्य गृहीतस्याहुतस्य अहुतस्य बहिःपरिधि बहिःपरिधिः स्कन्दति बहिःपरिधिति बहिः परिधिकन्दति तेषाम् तेषाम् तत् तद्भागधेयम् भागधेयम् तान् भागधेयमिति भागाधेयम् तानेव एव तेन तेन प्रेणादि प्रीणादिपरिधीन् परिधीन्परि परिधीनिति परिधीन् परिदधाति दधाति रक्षसाम् रक्षसामपहत्यै अपहत्यै सम् अपहत्या इत्यपाहत्यैः सर्गः स्पर्शयति स्पर्शयति रक्षसाम् रक्षसामनन्वचाराय अनन्वपचाराय न अनन्वचारायेत्यनमोऽपचाराय न पुरस्तात् पुरस्तात्परि परिदधाति दधात्यादिज्ञः आदित्यो हि येव एवोद्यन् उद्यन्पुरस्तात् उद्यन्नित्युत् यन् पुरस्ताद्रक्षाकम्सि रक्षागस्य वहन्ति अपहन्त्यूर्ध्वे अपहन्तीत्यपहन्ति ऊर्ध्वे समिधौ ऊर्ध्वे इत्यूर्ध्वे समिधा वा समिधाविति <Sess> आदधाति तथाद्युपरिष्टाद् उपरिष्टादेव एव रक्षापुंसि रक्षाकस्यप अपहन्ति हन्ति रेजुषा रेजुषान्याम् अन्याम् तूष्णीम् तूष्णीमन्याम् अन्याम् व्यधनत्वाय विधनत्वाय द्वे विधनत्वाय यज्विधुनात्वाय द्वे आ द्वे इति द्वे आदधादि दधाति द्विपाद् द्विपाद्यजमानः द्विपादिति द्वीपाद् यजमानः प्रतिष्ठत्यै प्रतिष्ठित्यै ब्रह्मवादिनः प्रतिष्ठित्या इति प्रतिष्ठित्यै ब्रह्मवादिनो वदन्ति ब्रह्मवादिन इति सः स तु त्वयि वैय्यजेत यजेतयः यज्ञस्य यज्ञस्यार्त्या आर्त्यान् त्यादि इति भूपतये भूपतये स्वाहा भूपतय इति भूपतये स्वाहा भुवनपतये भुवनपतये स्वाहा भुवनपतये इति भुवनादये स्वाहा भूतानाम् भूतानाम् पदये पतये स्वाहा स्वाहेति इति स्कन्दम् स्कन्दमनु अनुमन्त्रवेद मन्त्रवेदयज्ञस्य यज्ञस्यैव एव तत् तदाद्या आद्यायजमानः यजमानोऽवसीयान् वसीयान् वसी भवति भवति भूयसीः भूयसीरिः हि देवताः देवताः प्रीणाति प्रीणाति जामि जामि वै वा एतत् एतद्यज्ञस्य यज्ञस्य क्रियते क्रियते यत् यदन्वञ्चौ अन्वञ्चौ पुरोडाशौः रोडाशापुपागुंशु याजम् उपागुंसु याजमन्तरा उपागुंसु याजमित्युपागुंशु याजम् मन्तारा यजति यजत्यजामित्त्वाय यजामित्वाय अथोः यजामित्वायेत्यजामि त्वाय अथो मिथुनत्वाय अथो इत्यथो मिथुनत्वायाग्निः मिथुनत्वायेति मिथुनात्वाय अग्निरमुष्मिन् अमुष्मिन् लोके लोक आसीत् आसीद्यमः यमोऽस्मिन् अस्मिन् ते ते देवाः देवा ब्रुवन् ब्रुवन्ना एत इत्येमौ इमौ विपरि पर्यूहाम ऊहामेति इत्यन्नाद्येन अन्नाद्येन देवाः अन्नाद्यनेत्यन्नाद्येन देवा अग्निम् अग्निमुपामन्त्रयन्त उपामन्त्रयन्तराज्येन उपामन्त्रयन्तेत्युपामन्त्रयन्त राज्येन पितरः पितरो यमम् यमम् तस्मात् तस्मादग्निः अग्निर्देवानाः देवानामह्न्नातः अन्नादो यमः अन्नाद इत्यन्ना अधः यमस्ति तृणाम् तृणायम् राजा राजायः य एवम् एवम् वेद वेदप्रराज्यम् राज्यमन्नाद्यम् अन्नाद्यमाप्नोति अन्नाद्यमित्यन्नाद्यम् आप्नोति तस्मै तस्मा एतत् एतद्भागधेयम् भागधेयम् भागधेयमिति भागधेयम् आयच्छन् अयच्छन यत् यदग्नये अग्नये सृष्टकृतेः सृष्टकृते वद्यन्ति सृष्टकृतयति सृष्टा कृतेः अवद्यन्ति यत् अवद्यन्तीत्य वाद्यन्ति यदग्नये अग्नये सृष्टकृतेः सृष्टकृते वद्यति सृष्टकृतगति सृष्टा कृतेः अवद्यति भागभेयेन अवद्यति इत्यवाद्यति भागभेयेनैव भागभेदेनेति भागधेयेन एव तद्द्रम् रुद्रकंसम् सवर्धयति अर्धयति सकृत्सकृत् सकृत्सकृतव सकृत्सकृति सकृत् सकृत् अपद्यति यदि सकृ सर्लरिव इव हि रुद्रः रुद्र अवद्यति यद्येषा एषा वै वै रुद्रस्य रुद्रस्य दिक् इक्स्वायाम् स्वायामेव एवदिशिषि रुद्रम् रुद्रम् निरवदयते निरवदयते द्विः निरवदयत अवदयतेरभिघारयति धारयति चतुर्वस्य चतुर्वक्तस्याप्ती चतुरवत्तस्येति च ग्रहो अवत्तस्य आप्ती पशवः पशवो वै वै पूर्वा पूर्वा आहृतयः आहृदय एषः आहृतय इद्याहृतयः एष रुद्रः रुद्रो यत् यदग्निः अग्निर्यत् यत्पूर्वाह पूर्वा आहुतीः आहुतीरभि आहुतीरित्याहुतिः अभिजुभुयात् विभयाद् रुद्राय रुद्रायपशोण् पशूनपि अपि तद्ध्यात् तद्ध्याजपशुः पशुर्यजमानः यजमानः स्यात् स्यादतिहाय अतिहायपूर्वा आह अतिहाय इत्यतिहाय पूर्वा आहुतीः आहुतीर्ध्रोति आहुतिरित्याहुतिः ती। विहोतिपशूनाम् पशूनाम् गोपीथाय गोपीथादेति गोपीथाय मनःपृथिव्याः पृथिव्या यज्ञेयम् यज्ञेयमैच्छत् अयच्छत्सः स घृतम् घृतम् निषिक्तम् निषिष्टमविन्दत् निषिक्तमिति निषिक्तम् अव्यत्सः सोऽब्रवीत् अब्रवीत्कः कोऽस्य अस्येश्वरः ईश्वरो यज्ञे यज्ञेऽपि अपि कर्तोः कर्तोरिति तावब्रूताम् अब्रूताम् मित्रावर्णौ मित्रावर्णौ गोः मित्रावृणाविति मित्रावर्णौ गोरेव एवावम् आवमी ईश्वरौ ईश्वरौ कर्तोः कर्तोः स्वः स इति तौ तौ ततः तरोगाम् रागुंसम् समैलयैलयरागुंसा स यत्र यत्र यत्र यत्र यक्रामदिनिमि अक्रामत् ततो घृतम् घृतमपीड्यत अपीड्यतस्मात् तस्मात् घृतपदी घृतपद्युच्यते घृतपदीति घृतापदी उच्यते तत् तदस्यै अस्यै जन्म जन्मापभूतम् उपभूतकुम् रसन्तरम् उपभूतमित्युपाभूतम् रथन्तरकुम् सः कथम् तरवजरथम् धरम् सः इत्याह आहेयम् यम् वै वै रसन्तरम् धरम् इमामेव एव सः सहा, सहान्नाद्येन अन्नाद्येनोप अन्नाद्येनेतीन्ना अद्येन उपह्वयते वयद उपभूतम् उपहूतम् वामदेव्यम् उपहूतमित्युपाहूतम् वामदेव्यम् सह वामदेव्यमिति वामादेव्यम् सहान्तरिक्षेण अन्तरिक्षेणेति इत्याह आह पशवः पशवो वै वै वामदेव्यमिति वामादेव्यम् पशूनेव एव सः सहान्तरिक्षेण अन्तरिक्षेणोप उपह्वयते क्वयत उपहूतम् बृहत् उपहूतमित्युपाहूतम् बृहत्सः सह दिवा दिवेदि इत्याह आहैरम् ऐरम् वै वै बृहद् बृहदिराम् इरामेव एव सः सह दिवा दिवोप उपह्वेदे सप्त उपहूता इत्युपाहूताः सप्तहोत्रा आह इत्याह आहोत्रा आह होत्रा एवोप उपह्वेदे वयत उपहूता उपहूता धेनुः उपहूते इत्युपाहूताः धेनःसः ऋषभा सह ऋषभेति सह ऋषभेति सः ऋषभाः इत्याह आह मिथुनम् मिथुनमेव एवोप उपह्रियते वयत उपहूतः उपहूतो भक्षः उपहोत इत्युपाहूतः सखेति इत्याह आह सोमपीठम् सोमपीठमेव सोमपीठमिति सोमापीठम् एवोप उपह्रियते वयत उपहूता हो उपहूता हो इति हो इति हो, हो इत्याह आत्मानम् आत्मानमेव एवोप उपह्वेते ह्वेत आत्मा आत्मा हिपहूतानाम् उपहूतानाम् वसिष्ठः उपहूतानामित्युपाहूतानाम् वसिष्ठ इडाः इडामुप उपह्रियते प्रियते पशवः पशवो वै वा इळाः इडापशून् पशूनेव एवोप उपह्रियते प्रयते चतुः चतुर्प उपह्वयते चतुष्पादः चतुष्पादो हि चतुष्पाद इति चतुः मानवी मानवीति इत्याह आहमनोः मातुर्हिता एतामग्रे अग्रे पश्यत् अपश्यद्घृतपदी घृतपदीति घृतपदीति घृतापदी इत्याह आहयत् यदेव एवास्यै अस्यै पदात् पदा घृतम् घृतमपि अपि ईड्यत तस्मात् तस्मादेवम् मैत्रावरुणी मैत्रावरुणीति मैत्रावरुणीति मैत्रावरुणी मित्राह आह मित्रावरुणौ मित्रावरुणौ हि मित्रावरुणामिति मित्रावरुणौ हेनाम् येनागुम् समैलयताम् समैलयताम् ब्रह्म समैलयतामिति समैलयताम् ब्रह्म देवकृतम् देवकृतमुपहूतम् देवकृतमिति देवाकृतम् उपहूतमिति उपहूतमित्युपाहूतम् इत्याह आह ब्रह्म ब्रह्मैव एवोप उपह्रियते क्रियते दैव्या आह दैव्या अद्धर्यवः अद्धर्यव उपहूताः उपहूता उपहूताः उपहूता इत्युपाहूताः उपहूता मनुष्या आह उपहूता इत्युपाहूताः मनुष्या इति इत्याह आह देवमनुष्यान् देवमनुष्यानेव देवमनुष्यानिति देव मनुष्यान् एवोप उपह्रियते प्रयते ये इमम् इमम् यज्ञम् यज्ञमवान् अपान ये ये यज्ञपतिम् यज्ञपतिम् यज्ञपतिमिति यज्ञापतिम् वर्धानिति इत्याह आह यज्ञाय यज्ञाय चैव एव यजमानाय यजमानाय च साशिषम् आशिषमा आशिषमित्या आशिषम् आशास्ते शास्त उपहूते उपहूते द्यावापृथिवी उपहूते द्यावापृथिवी इति द्यावापृथिवी इति द्यावा आपृथिवी इत्याह आह द्यावापृथिवी द्यावापृथिवी एव द्यावापृथिवी इति द्यावापृथिवी एवोप उपह्वजते भजते पूर्वजे पूर्वजे गृदावरी पूर्वजे इति पूर्वजे रतावरी इति रतावरी इत्यतावरी इत्याह आह पूर्वजे पूर्वजे हि पूर्वजे इति, इति, इति पूर्वाजे ह्येते एते रतावरी एते इत्येते रतावरी देवी रतावरी इत्यतावरी देवी देवपुत्रे देवी इति देवी देवपुत्रे इति देवपुत्रे इति देवापुत्रे इत्याह आह देवी देवीः देवी इति देवी ह्येते एते देवपुत्रे एते इत्येते देवपुत्रे उपहूतः देवपुत्रे इति देवपुत्रेः उपभूतोऽयम् उपहूत इत्युपाहूतः यजमानः यजमान इत्याह आह यजमानम् यजमानमेव एवोप उपह्वेते अय उत्तरस्याम् उत्तरस्याम् देवयज्ञायाम् उत्तरस्यामित्युतोत्तरस्याम् देवयज्ञायामुपहूतः एव यज्ञायामि च देव यज्ञायाम् उपभूतो भूयसि उपहूत इत्युपाहूतः भूयसि हविष्करणे अविष्करण उपहूतः अविष्करणीकरणे उपभूतो दिव्ये उपहूत इत्युपाहूतः दिव्ये उपहोतो धावन्नुपहूतः उपहूतदिति उपहूत इत्युपाहूतः इत्याह आह प्रजा प्रजा प्रजेति प्राजा वा उत्तरा उत्तरादेव यज्ञा उत्तरेत्युदराः देवयज्ञा पशवः देवयज्ञेति देवयज्ञा पशवो भूयः भूयोः विष्करणम् आविष्करणम् स्वर्गः विष्करणमिति हविःकरणम् सुवर्गो लोकः इति सुवभागः लोको दिव्यम् दिव्यन्धा वा घामेदम् इदमसि इदमसि असीति इत्येव एव यज्ञस्य यज्ञस्य दिव्यम् द्विजन्धा वा उपह्वयते तस्य प्रियम् प्रियमुपहूतम् उपहूतमिति उपहूतमित्युपाहूतम् इत्याह आहाछम्बट्कारम् अछम्बट्कारमेव अचम्बट्कारमित्यछम्बटकारम् एवोप उपह्रियते क्लेद इति क्ले पशवो वै उपायुडाः इडाः स्वयम् आदत्ते दर्ते कामम् काममेव एवात्मना आत्मना पशूनाम् पशूनामा आदत्ते दर्तेन न हि अन्यः अन्यः कामम् कामम् पशूनाम् प्रयच्छति प्रयच्छति वाचः प्रयच्छतीति प्रायच्छति वाचस्पतये पतये त्वा हुतम् हुतम् प्रा प्राश्नामि पश्नामीति इत्याहवाच वाचमेव एव भागभेदेन भागधेदेन प्रीणाति भागभेदेनेति भागधेदेन प्रीणादि सदसः सदसस्पतये पतये त्वा हुतम् हुतम् वा त्वाश्नामि अश्नामीति इत्याह आह सुगाकृत्यै स्वगाकृत्यै चतुर्वम् सगाकृत्या इति स्वगाकृत्यै चतुर्वम् भवति चतुर्वमिति चतुः अवत्तम् भवति हविः हविर्वै वै चतुर्वम् चतुर्वम् पशवः चतुर्वमिति चतुः अवत्तम् पशवश्चतुरवत्तम् चतुर्वम् यत् चतुर्वमिति चतुः यद्धोताः होतात्प्राश्नीयात् प्राश्नीयाद्धोताः प्राश्नीयादिति प्राश्नीयात् होतार्तिम् आर्तिमा आर्क्षयेत् विच्छेद्यत् यदग्नौ अग्नौ जुहुजात् जुहुजाुद्राय दुद्राय पशून् पशूनपि अपि दध्यात् दध्यादपुशुः अपशुर्यजमानः यजमानः स्यात् स्याद्वाचः वाचस्पतये पतये त्वा हुतम् हुतम् वा प्राश्नामि अश्नामीति इत्याह आह परोक्षम् परोक्षमेव परोक्षमिति परः अक्षम् एवैनत् एनज्जुहोति जुहोति सदसः सदसस्पतये पतये त्वा प्राहुतम् हुतम् प्र प्राश्नामि अश्नामीति इत्याह आह सुगाकृत्यै सुगाकृत्यै प्र सुगाकृत्या इति सुगाकृत्यै प्राश्नन्ति अश्नन्ति तीर्थे तीर्थ एव एव प्रा प्राश्नन्ति अश्नन्ति लक्षिणाम् लक्षणाम् ददाति तदा तीर्थे ईर्थ एव लक्षिणाम् लक्षणाम् ददाति ददातिवि ददाति दिवै वा एतत् एतद्यज्ञम् यज्ञम् छिन्दन्ति छिन्दन्त्येत् यन्मथ्यदः मध्यदः प्राश्नयन्ति प्राश्नन्त्यद्भिः प्राश्नयन्तीति प्रा अश्नन्ति रद्भिर्मार्जयन्ते अद्भिरित्यतद्भिः मार्जयन्त आपः भो वै वै सर्वा आह सर्वा देवता आह देवता देवताभिः देवताभिरेव एव यज्ञम् यज्ञगंसम् सन्तन्वन्ति तन्वन्ति देवाः देवा वै वैयज्ञात् यज्ञात् रुद्रम् रुद्रवन्तः अन्तरायन् आयम् सः स यज्ञम् यज्ञमभिध्यत् अभिध्यत्तम् तम् देवाः देवा अभि अभिसम् समगच्छन्त अगच्छन्त कल्पदाम् कल्पदान्नः न इदम् इदमिति ते अब्रुवन् अब्रुवन् स्विष्टम् स्विष्टम् वै स्विष्टमिति सोष्टम् वै नः न इदम् भविष्यति भविष्यति यदिमम् इमगुम् राधयिष्यामः राधयिष्याम इति सृष्टाकृतः सृष्टकृत्वम् तस्य सृष्टकृत्वमिति सृष्टकृतत्वम् तस्याविद्धम् आविध्वनिः आविद्धमित्राविद्धम् निरक्रन्दन् अक्रन्दयवेन यवेन संवितम् संहितम् तस्मात् संवितमिति संवितम् तस्माद्यवमात्रम् यवमात्रमात्रमिति यज्यायः ज्यायो वृद्येत् अपर्येद्रोपयेत् अपद्येरित्यवाद्येत् रोपयेत् तद्यज्ञस्य यज्ञस्य यत् यदुप उप च स्तृणीयात् स्तृणीयादभि अभि च घारयेत् घारयेदुभेदः सर्गस्वाली उभेदस्सर्गस्वाली कुर्यात् उभेदः सर्गस्वाली इत्युभेदः सग्स्वाली कुर्यादवदाय अवदायाभि अवदायेत्यपादाय अभिघारयति संवद्यते द्विपात् द्विपाद्यमानः द्विपादिति द्वीपात् यदमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यत् प्रतिष्ठिता प्रतिष्ठित्यैनम् अतिहवेदनभिविद्धम् अतिहरेदित्यतिहरेत् अनभिविद्धे यज्ञस्य यज्ञस्याभि अभिविद्धेत् युद्धेदग्रेण अग्रेण परि परिहरति हरति तीर्थेन तीर्थेनैव एवपरि परिहरति हरति पर्यहरन् प्रहरन् तत्पूषा पूषा प्राश्य प्राश्येति प्राश्य ततोऽरुणत् अरुणत्तस्मात् तस्मात् पौषा पौषा प्रविष्टा भागः अदन्तको हि इवम् तम् देवाः देवा अब्रुवन् अब्रुवन्वि इवै वा अयम् अयमार्थि आर्ध्यप्राशित्र्यः प्राशित्र्यो वै अप्राशित्र्येत्यप्राशित्रियः वा अयम् अयमभूत् अभूदिति इति तत् तद्बृहस्पतये बृहस्पतये परि पर्यहरन् अहरन् सः सोऽभेद् अभिभेद्बृहस्पतिः अभिभेद बृहस्पतिरित्थम् इत्थम् वा वस्यः स आर्तिम् आर्तिमा आरिष्यति अरिष्यतीति इति सः स एतम् मन्त्रम् मन्त्रमपश्यत् अपश्यत् सौर्यस्य सौर्यस्य त्वा प्रति प्रतिपश्यामि पश्यामीति इत्यब्रवीत् अब्रवीन्न न हि सूर्यस्य सूर्यस्य चक्षुः चक्षुः किम् किञ्चन च न हिनस्ति हिनस्ति सः सोऽभेत् अभिभेत् प्रतिगृह्णन्तम् प्रतिगृह्णन्तम् मा प्रतिगृह्णन्तगृह्णन्तम् मा हिगुम् शिष्यति हिगुम् शिष्यतीति देवस्य देवस्य त्वा त्वा सविदुः सविदः प्रसवे बाहुभ्याम् पूष्णः बाहुभ्यामिति बाहोभ्याम् पूष्णो हस्ताभ्याम् हस्ताभ्याम् प्रति प्रतिगृह्णामि अब्रवीत् सवितृप्रसूतः सवितृप्रसूत एव सवितृप्रसूत इति सवितृप्रसूतः ब्रह्मणा देवताभिः देवताभिः प्रति प्रत्यगृह्णात् अगृह्णात् सः सोऽभेद् अभिभेत् प्राश्यन्तम् प्राश्यन्तमिति प्र अश्नन्तम् मा हिगुम् शिष्यति हिगुम् शिष्यतीति इत्यग्नेः अग्नेस्त्वा प्रास्येन आस्येन प्र प्राश्नामि अश्नामीति इत्यब्रवीत् अब्रवीन्न न हि अग्नेः अग्नेरास्यम् आस्यम् किम् किञ्चन च न हिनस्ति हिनस्ति सः स्वविभेद् अभिभेद प्राशितम् प्राशितम् मा प्राशितमिति प्राशितम् मा हिगुम् शिष्यति हिगुम् शिष्यतीति ब्राह्मणस्य ब्राह्मणस्योदरेण उदरेणेति इत्यब्रवीत् अब्रवीन्न न हि इति ब्राह्मणस्य ब्राह्मणस्योदरम् उदरम् किम् किञ्चन च न इनस्य बृहस्पतेः बृहस्पतेर्ब्रह्मणा ब्रह्मणेति इति सः स हि हिर्ब्रह्मिष्ठः ब्रह्मिष्ठोप अपवै वा एतस्मात् एतस्मात् प्राणाः प्राणाः क्रामन्दि प्राणा इति प्राणाः क्रामन्द्यः यः प्राशित्रम् प्राशित्रम् प्राश्नाति प्राशित्रमिति प्राचित्रम् प्राश्नात्यद्भिः प्राश्नादिति प्राश्नाति अग्भ्यमा अर्जयित्वा अभ्यरिच्यते मार्जयित्वा प्राणान् प्राणान्सम् प्राणानिति प्राणान् तम् मृषते मृषते वै वै प्राणाः प्राणा अमृतम् प्राणा आपः प्राणान् प्राणानेव प्राणानिति प्राणान् एव यथास्थानम् यथास्थानोप यथास्थानमिति यथास्थानम् उपह्रियते अयत इति स्वयते अग्नीध अग्नीध इत्यग्नीविधे आदधाति दधात्यग्निमुखान् अग्निमुखानेव अग्निमुखान् इत्यग्निमुखान् एवर्तोन् रथोऽन् प्रीणाति क्रेणाति समिधम् समिधमा समिधमिति समिधम् आदधाति दधात्युत्तरासाम् उत्तरासामाहुतीनाम् उत्तरासामित्युदुत्तरासाम् आहुतीनाम् प्रतिष्ठित्यै आहुतीनामित्याहुदीनाम् प्रतिष्ठित्या अथोः प्रतिष्ठित्या इति प्रतिष्ठित्यै अथो समिद्वति अथो इत्यसोः समिद्वत्येव समिद्वतीति समिद्वती एव जुहोति जहोन् प्रथीन्सम् परिधेनति परिधेन सम्माहर्षि <NO> महर्षिपुनाति पुरात्येव एवैनान् एनाम् सकृत्सकृत सकृत्सकृत्सम् सकृत्सकृति सकृते सकृते सम्माहर्षि महर्षिपराङ् पराङ्वहि ये तर्हि एतर्हि यज्ञः यज्ञश्चतुः चतुःसम् संवर्द्यते चतुष्पादः चतुष्पादः पशवः चतुष्पाद इति चतुः पादः पशवः पशून् पशूनेव अवरुन्धे वृन्धे ब्रह्मन् ब्रह्मन् प्रस्थास्यामः स्थास्याम इति यत्याह आहात्र अत्र वै वा एतर्हि एतर्हि यज्ञः यज्ञश्रितः श्रितो यत्र यत्र ब्रह्मा ब्रह्मा यत्र यत्रैव एव यज्ञः यज्ञश्रितः श्रितस्ततः तत एव एवैनम् केनमा आरभते रभते, रभते यत् यद्धस्तेन हस्तेन प्रमीवेत् प्रमीवेद्वेपनः प्रमीवेदिति प्रमीवेद् द्वेपनः स्यात् स्याद्यत् यच्छीर्ष्णा शीर्ष्णा शीर्षक्तिमान् शीर्षक्तिमान् स्यात् शीर्षक्तिमाशीर्षक्तिमान् स्याद्यत् यत्तोष्णीम् तोष्णीमासीत आसीतासंवृत्तः असम्वृत्तो यज्ञः असंवृत्त इत्यसंवृत्तः यज्ञः स्यात् स्यात् प्रतिष्ठ तिष्ठेति इत्येव एवम् ब्रूयात् ब्रूयाद्वाचि वाचि वै वै यज्ञः यज्ञश्रितः श्रितो यत्र यत्रैव एव यज्ञः यज्ञश्रितः श्रितस्ततः तत एवैनम् एनपुंसम् सम्प्रयच्छति प्रयच्छति देव एव सवितः सवितरेतत् हेति इत्याह आह प्रसूद्ये प्रसोत्ये बृहस्पतिः प्रसोत्यादिप्रासोद्ये बृहस्पतिर्ब्रह्मा ब्रह्मेति इत्याह आहसः स हि हि ब्रह्मिष्ठः ब्रह्मिष्ठः सः स यज्ञम् यज्ञम् पाहि आहिसः स यज्ञपदिम् यज्ञपतिम् पाहि यज्ञपदिति यज्ञापतिम् पाहिसः स माम् माम् पाहि पाहीति इत्याह आहयज्ञाय यज्ञाय यजमानाय यजमानायात्मने आत्मने तेभ्यः तेभ्य एव एवाशिषम् आशिषमा आशिषमित्या आशिषम् आशास्ते शास्तेनाहर्ति अनाहर्त्या आश्राव्य आश्राव्याः आश्राव्येत्या आश्राव्य आह देवान् यजेति इति ब्रह्मवादिनः ब्रह्मवादिना वदन्ति ब्रह्मवादिने इति ब्रह्मवादिनः बृन्द्रीष्टाः इष्टा देवता आह देवता अथ अथ कतमे कतम एते एते देवाः देवा, देवा इति छन्दागुंसि छन्दागुंसीति इति ब्रूयाद्ब्रूयाद्गायत्रीम् गायत्रीम् द्रष्टुभम् द्रष्टुभम् जगतीम् जगतीमिति इत्यथो अथो अथो इत्यथो खल्बाहुः आहुर्ब्राह्मणाः ब्राह्मणा वै वै छन्दागुंसि छन्दागुंसीति इति तद्यजति यजति देवानाम् देवा वै वा इष्टाः इष्टा देवता आह देवता आसन् आसन्नथ तथाग्निः अग्निर्न नोत् उदज्ज्वलत् अज्ज्वलत्तम् तम् देवाः देवा आहुतीभिः आहुतीभिरनु याजेषु आहुतीभिरित्याहुतीभिः अनुयाजेष्वनु अनो याजेष्वित्यनो याजेषु अन्वविन्दन् अविन्दनयत् यदनो याचान् अनो याचान इत्यनो याजान् यतज्ञम् अग्निमेव एव तत् तत्सम् समिन्धे इन्ध एतदुः एतदुर्वै वै नाम नामासुरः आसुर आसीत् आसीत् सः स एतर्हि एतर्हि यज्ञस्य यज्ञस्याशिषम् आशिषमवृन्त आशिषमित्या आशिषम् अवृन्तयत् यद्ब्रूयात् ब्रूयादेतत् एतद् उद्या वा पृथिवी या वा पृथिवी भद्रम् या वा पृथिवी इति द्या वा पृथिवीः भद्रमभूत् अभूदिति इत्येतदुम् एतदुमेव एवासुरम् आसुरम् यज्ञस्य यज्ञस्याशिषम् आशिषम् गमयेत् आशिषमित्या आशिषम् गमयेदिदम् इदम् द्या वा पृथिवी या वा पृथिवी भद्रम् या वा पृथिवी भद्रमभूद् रोयति इत्येव एव ब्रूयाद् ब्रूयाद्यजमानम् युजमानमेव एव यज्ञस्य यज्ञस्याशिषम् आशिषम् गमयति आशिषमित्या आशिषम् गमयत्याध्म आध्मसूक्तवाकम् सूक्तवाकमुत सूक्तवाकमिति सूक्तावाकम् उत नमोभाकम् नमो वाकमिति नमो वाकमिति नमः इत्याह आहेदम् इदमरात्स्म रत्स्मेति यदि वावैतत् एतदाह आहोपश्रितः उपश्रितो दिवः उपश्रित इत्युपाश्रितः दिवः पृथिव्योः पृथिव्योर्हि इत्याह आहद्यावापृथिव्योः द्यावापृथिव्योर्हि द्यावापृथिव्योरिवाः पृथिव्योः यज्ञः यज्ञ उपश्रितः उपश्रितः ओमन्वती उपश्रित इत्युपाश्रितः ओमन्वती ते ओमन्वती इत्योमन्वती अस्मिन् यज्ञे यज्ञे यजमान यजमानद्यावापृथिवी पृथिवी स्ताी इति पृथिवी स्तामिति इत्याहिषम् आशिषमेव आशिषमित्या आशिषम् एवैताम् एतावा आशास्ते आस्ते यत् यद्ब्रूयाद् ब्रूयात्सूपावसाना सूपावसाना च सूपावसानेति सूपावसाना छस्वभ्यवसाना ध्यवसाना च सुध्यवसानेतिसु चेति इति प्रमायुकः प्रमायुको यजमानः स्याद्यदा यदा हि यत्प्रमीयते प्रमीयतेऽथ प्रमीयत इति प्रमीयते अथैव इमामुपावस्यति उपावस्यति सूपचरणा अवावस्यतीत्युप अपस्यति सोपचरणा च सूपचरणेति सू उपचरणा तत्सुधिचरणा सुधिचरणा चेति इत्येव ्रूजाद् ब्रूजाद्वरीयसीम् वरीयसीमेव वरी एवास्मै अस्मै दव्यूगिम् आशास्ते शास्तेन मत्प्रमायुकः प्रमायुको भवति प्रमायुक इति प्रामायुकः भवति तयोः तयोराविदि आविद्यग्निः आविरीत्याविदि अग्निदम् इदलम् हविः अविरजुषत अजुषतेति इत्याह आहयाः या अयाक्ष्म अयाक्ष्मदेवताः देवतास्ताः ता अरीरधाम अरीरधामेति इति वाव वावैतत् एतदाह आहयत् यन्न न निर्दिशेत् निर्दिशेत् प्रतिवेशम् निर्दिशेदिति निशेत् यज्ञस्य प्रतिवेशमिति प्रतिवेशम् यज्ञस्याशीः आशीर्गच्छेत् आशीर्त्या आशीः गच्छेदा आशास्ते शास्तेयम् ययम् असाविधि इत्याह आह निर्दिश्य निर्दिश्यैव निर्दिश्येति निहदिष्य एवैनम् एनकम् सुवर्गम् सुवर्गम् लोकम् सुवर्गमिति सुवहायम् लोकङ्गमयति अवयत्यायोः आयुरा आशा आस्ते शास्ते सुप्रजास्त्वम् सुप्रजास्त्वमा सुप्रजास्त्वमिति सुप्रजाः त्वम् आशास्ते शास्त इति इत्याह आहाशिषम् आशिषमेव आशिषमित्याहाशिषम् एवैता यतामा आशा अस्ते शास्ते सुजातवनस्याम् सुजातवनस्यामा सुजातवनस्यामिति आशा आस्ते शास्त इति इत्याह आह प्राणाः प्राणा वै प्राणा इति प्राणाः इति सा जाताः प्राणामेव एव नः अन्तरेति एतत् तदग्निः अग्निर्देवः देवो देवेभ्यः वनते वनते वयम् अयमग्नेः मानुषा इति इत्याह आहाग्निः अग्निर्देवेभ्यः देवेभ्यो वनते वनुते वयम् अयम् इति वाव वावैतत् एतदाह आहेह इह गतिः अतिर्वामस्य इदम् च नमः नमो देवेभ्यः देवेभ्य इति इत्याह आहयाः याश्च चैव एव देवताः देवता यजति यजदीयाः याश्च च न ताभ्यः ताभ्य एव एवोभीभ्यः उभीभ्यो नमः नमस्करोति करोत्यात्मनः आत्मनो नार्ति अनार्त्या इत्युना अर्ति एवा वै वै यज्ञस्य यज्ञस्य सुगाकर्तारम् सुराकर्तारन्न सुगाकर्तारमिति स्वगाकर्तारम् अविन्दन्ते ते, ते शयम् वारहस्पत्यम् शयमिति शां्यम् वारृहस्पत्यमब्रुवन् अब्रुवन्दिनम् इमन्नः न यज्ञम् यज्ञस्वगा सुगा कुरु कुर्विति यदि त सोऽब्रवीत् अब्रवीद्वरम् वरम् वृणै वृणै यत् तदेव एवाब्राह्णोक्तः अब्राहम्भोक्तोऽश्रद्दधानः अब्राह्णोक्त इत्यब्राह्मणोक्तः अश्रद्दधानो यजातै अश्रद्दधान इत्यश्रद्दधानः न जातैः सा सा मेः यज्ञस्य यज्ञस्याशीः आशीरसत् आशीरित्या आशीः असदिति तस्मात् तस्मादि यदब्राहम्भणोक्तः तद्राह्णोक्तोश्रद्दधानः अब्राह्मणो उक्त इत्यब्राह्मणो उक्तः अश्वद्दधानो यजते अश्वद्वधान इत्यश्रद्दधानः यजते शय्यम् शयमेव शयमिति शाम्यम् एव तस्य तस्य बालहस्पत्यम् बालस्पत्यम् यज्ञस्य यज्ञस्याशीः यज्ञस्या आशीर्गच्छति आशीर्त्याशीः गच्छत्येतत् एतन्मम ममेति इत्यब्रवीत् अब्रवीत् किम् मे मे प्रजायाः प्रजाया इति प्रजाया इति प्राजाया इति यः योऽपगुरातैः अपगुरातैः शतेन अपगुरात इत्यपाकुरातैः शतेन यातयात् यातयाद्यः यो निहनद् निहनत्सहस्रेण निहनदिति निहनत् सहस्रेण यातयात् यातयाद्यः यो लोहितम् लोहितम् करवत् करवद्यावतः यावतः प्रस्कद्य प्रस्कृद्य पाकुंसून् प्रस्कद्येति प्रास्कृद्य पाकुंसून्सङ्गृह्णात् सङ्गृह्णात् तावतः सङ्गृह्णादिति सङ्गृह्णात् तावदः संवत्सरान् संवत्सरान् पितृलोकम् संवत्सरान् इति संवत्सरान् पृलोकम् न ऋलोकमिति पितृलोकम् न इति तस्मात् तस्माद्ब्राह्मणाय ब्राह्मणा च नाप अपगुरेत गुरेत न निहन्यात् अन्यान्न न लोहितम् लोहितम् कुर्यात् कुर्यादेतावता एतावताः येन सा भवति भवति तत् शञ्योरा शञ्योरितिषां योः आ वृणीमहे वृणीमः इति इत्याह आह यज्ञम् यज्ञमेव एव तत् तत्सुखा सुगा करोति सुगेति स्वागा करोति तत् संयोरा संयोरिति शां्योः आविणीमहेणीमः इति इत्याह आह संयुम् संयमेव संयमिति शां्युम् एव वालहस्पत्यम् वालहस्पत्यम् भागधेयेन भागधेयेन सम् भागधेदेनेति भागधेयेन समर्थयति अर्धयति घातुम् गातुम् यज्ञाय यज्ञाय गातुम् गातुम् इति यज्ञपतय इति यज्ञापतये इत्याह आशिषुम् आशिषमेव आशिषमित्र आशिषम् सम... एवैताम् एतामा आशास्ते शास्ते सोमम् सोमम् यजति यजतिरेतः रेत एव एव तत् तद्दधाति दधाति त्वष्टारम् तष्टारम् यजति यजतिरेतः रेत एव एवहितम् इतम् पष्टा तष्टारूपाणि रूपाणि विकरोति करोति देवानाम् देवानाम् पत्नीः पत्नी यजति यजति मिथुनत्वाय मिथुनत्वायाग्निधुनत्वायेति मिथुनात्वाय अज्ञिम् गृहपतिम् गृहपतिम् यदति गृहपतिमिति गृहपतिम् यदति प्रतिष्ठित्यै प्रतिष्ठित्यै जामि प्रतिष्ठित्या इति प्रतिष्ठित्यै जामि वै वा एतत् एतद्यज्ञस्य यज्ञस्य क्रियते क्रियते यत् यदाज्येन आज्येन प्रयाजाः प्रयाजा युज्यन्ते याजा इति प्रायाजाः युज्यन्त आज्येन आज्येन पत्नीसञ्याजाः पत्नीसंयाजा रुचम् पत्नीसंयाजा इति पत्नीसंयाजाः रुचमनोच्य मनोच्य पत्नीसंयाजानाम् अनोच्येत्यनोच्य पत्नीसंयाजानाम् च पत्नीसंयाजानामिति पत्नीसंयाजानाम् रुचा यदितामित्वाय रजामित्त्वायाथोः निजामित्त्वाय त्यजामि त्वाय अथो वितनत्वाय अथो इत्यथोः वितनत्वाय पङ्क्तिप्रायणः मिथुनत्वाय इति मिथुनात्त्वाय पङ्क्तिप्रायणो वै पङ्क्तिप्रायण इति पङ्क्तिप्रायणः वै यज्ञः यज्ञः पङ्क्तिदयनः पङ्क्तिदयनः पञ्च इति पङ्क्ति उदयनः पञ्चप्रयाजाः प्रयाजा युज्यन्ते प्रयाजा इति प्रायाजाः युज्यन्ते चत्वारः चत्वारः पत्नीसंयाजाः पत्नीसंयाजाः समिष्टयोः पत्नीसंयाजा इति पत्नीसंयाजाः समिष्टयजुः पञ्चमम् समिष्टयजुरिति समिष्टायजुः पञ्चमम् पङ्क्तिम् पङ्क्तिमेव एवानु अनुप्रयन्ति प्रयन्ति पङ्क्तिम् प्रयन्ते यदि प्रयन्ति पङ्क्तिमनु अनू उद्यन्ति यन्तीति यन्ति योक्ष्वाहिदेवहूतमान् एवहूतमा भूमश्वान् एवहूतमानिति अश्वाकुम् अग्ने अग्ने रथीः रचीरिव इवेतीय विहोता होता पूर्व्यः पूर्व्यः सदः सद इति सदः पुतनः नो देव देवा, देवा देवा अच्छा अच्छावोचः ओचो विदुष्टरः विदुष्टर इति विदुतरः सद्विश्वाः विश्वा वार्याः वार्याकृभिः कृधिकृभिः तगुम्भ अयत् यद्यविष्ट यविष्ठसहसः सहसूनो गुणवाहुता आहृतेत्या आहृत दृतावायज्ञः द्रुतावेत्युतामाह यज्ञियो भुवः भुव इति भुवः अयमग्निः अग्निः सहस्रिणः सहस्रिणो वाचस्य वाचस्य शतिनः शतिनस्पतिः पतिरितिपतिः मोहारविः कविरजीनाम्नाम् तन्नेमिम् नेमिभवः ऋभो यथा यथा आ नमस्व नमस्व सभूतिभिः सहोदिभूतिभिः नेलीयो यज्ञम् यज्ञमङ्गिरः अङ्गिर तस्मै नूनम् नूनमभिद्यवे अभिद्यवे वाचा विरूप विरूप नित्यया विरूपेति विरूप नित्ययेति नित्यया चोदस्व सुष्ठुतिम् सृष्टुतिमिति सोऽस्तुतिम् अमुष्वित् स्विदस्य अस्य सेनया सेनयाग्नेः स्तरामहे स्तरामहे मानः नो देवानाम् देवानाम् दिशः दिशः प्रस्नातीः प्रस्नातीरिव प्रस्नाती प्रशन्न नहासुः आसुरग्नियाः अग्निया इत्यग्नियाः समस्या समस्य रूढ्यः रूढ्य परिद्वेषसः परिद्वेषसो अगुम्हतिः परिद्वेषस इति परिद्वेषसः अगुम्हतिरित्यगम्हतिः ऊर्मिर्न नावम् नावमा आवधीर् वधीरिति वधीर् नमस्ते हे अग्नेः अर्ध ओजसे ओजसे गृणन्ति गृणन्तिरेव देव कृष्टयः कृष्टय इति कृष्टयः अमैरमित्रम् अमित्रमर्दय अर्दयेत्यर्दय कुभित्सु सुनः नो गविष्टये गविष्टये अग्नेः गविष्टय इति गोष्टयेः अर्ग्ने संवेषिषः संवेषिषोरिम् संवेषिष तयिमिति तयम् उरुगृत्युरुणः नस्कृधि कृधीति कृधि मानः अस्मिन् महाधने महाधने परा महाधन इति महाधने परावृग् वर्ग्भारभृत् भारभृद्यथा भारभृदिति भाराभृत् यजेति यथा संवर्गकम् सम् संवर्गमिति संवर्गम् सगुम् प्रीम् प्रीम् जय भयेति जय अन्यमस्मत् अस्मद्भियै भिया इयम् इयमग्ने अग्ने सिषक्तु सिषक्तु दुक्षिणाः दुक्षिणेति दुक्षिणाः वर्धानः नो अमवत् अमवच्छवः अमवदित्यमावत् इति शवः यस्यादिषत् अदुषन्नमस्विनः ीम् शमीमदुर्मखस्य अदुर्मुखस्य वा अदुर्मखस्येतिरुहो मुखस्य वेति वा तङ्घेत् इदग्निः अग्निर्वृधा वृथावति अवतीत्यवति परस्या अधि अधिसम्वतः सम्वतोऽपरा अवरागम् अभि अभ्या आतर तवेतितर यत्राहम् अहमस्मि अस्मि तान् तान अव विद्माहि पुरा वयम् लयमग्ने अग्ने पितुः पितुर्यथा यथावसः अवस इत्यवसः अधा ते ते सुम्नम् सुम्नमीमहे हीमः इतीमहे य उग्रः उग्र इव इवशर्यः शर्यः तिग्मशृङ्गः शर्यहेति शर्याः किग्मशृङ्गो न तिग्मशृङ्ग इति तिग्माशृङ्गः न अग्ने पुरः पुरो रुरोजिथ रुरोजितेति सखा यः संवः संयञ्चम् संयञ्चमिषम् इषग्स्तोम् सोमम् चार्दये अग्न इत्यग्नये वरिष्ठादिनाम् श्रीणाम् ऊर्जः ऊर्जोऽनप्रे ने सहस्वते सहस्वत इति सहस्वते सगुम् समित् सगुम् समितिवसे दिवसे वृषन् वृषन्नग्नेः अग्ने विश्वानि विश्वान्यर्यः रत्या इटस्पदे पदे सम् समिध्यसे युभ्यसे स नः नो वसूनि भरेति भर प्रजापते सः प्रजापतेति प्रजा आपतेः स वेद वेद सोमापूषण सोमापूषणे वौ सोमापूषणेति सोमा आपूषणाः पुशन्तस्वा स्वाहवामहे हवामः पुषन्तः पुषन्तः सन् समिधीमहि धीमहि धीमहि उषरन्वषदः आवह महपितृन् हविषे हविषे अत्तवे अत्तव इत्यम् सोम सोम प्रचिगितः प्रचिगितो मनीषा प्रचिगित इति प्राचिगितः मनीषा त्वम् कर्मम् रजिष्ठम् रजिष्ठमनु अनुषि नेषि प्रणीति पितरः प्रणीतिप्रानीतिः पितरो नः न इन्दो इन्दो देवेषु इन्दो इति इन्दो देवेषु रत्नम् रत्नमुन्द अभिषन्दुधीराः धीराधीरा आह तया हि इरः पितरः पितरः सोमः पूर्वे पूर्वे कर्माणि पोमान् धीराः धीरा इति धीरा आह वन्वन्नवारः अपारः परिधीन् परिधी गुम्रप परिधीनिति परिधीन् अपो ओर्णो ऊर्णुवीरेभिः वीरेभ्यश्रैः अश्रैर्मघवा मघवा भव मघवेति मघावाह भवानः न इति नः त्वदं सोम सो पितृभिः पितृभिः संविधानः पितृभिरिति पितृभिः संविदानो नु संविधान इति संविधानः अनद्या वा पृथिवी या वा पृथिवी आ या वा पृथिवी इति द्यावा आपृथिवी आतदन्था तदन्तेति तदन्था तस्मैते अ इन्दो हविषा इन्दो इति इन्दो हविषा विधेम प्रयग्नस्याम यामपतयः पतयोरजीनाम् रीणाविचरयीणाम् अग्निष्वात्ताः पितरः अग्निष्वात्तार्यटी स्वात्ताः इतरा एह इह गच्छद गच्छद सदस्सदः सदःसदसदः सदसद इति सदः सदः सदसुप्रणेतयः सुप्रणीतय इति सोप्रणेतयः अर्थाहवीगुंषि हवीगुंषि प्रयतानि प्रयतानि बर्हिषि प्रयतानि इति प्रायतानि बहिषत रथायम् प्रयम् सर्ववीरम् सर्ववीरम् दधातन सर्ववीरमिति सर्वावीरम् दधातनेऽपि दधातन बर्हिषदः पितरः बर्हिषद इति बर्हि सदः इतरहूति ऊत्यर्वाक् र्वागिमा इमावह वो हव्या हव्या चक्रमा चक्रमाजुषध्वम् जिषध्वमिति जिषध्वम् त आगत गतावसा अवसा शन्दमेन शन्दमेन च शन्दमेनेति शम् तमेन अथास्मभ्यम् अस्मभ्यदंशम् अस्मभ्यमित्यस्माभ्यम् संयोः योररपः रपो दधात दधातेति दधात अहम् पितृन् सुमिदत्रा सुमिदत्रागुम् पवित्सि सुविजत्रानिपि सोऽजत्रान् अवित्सिरपातम् च विक्रमणम् विक्रमणम् च विक्रमणमिति विक्रमणम् विष्णोह विष्णोरिति विष्णोः वरिहिषदो ये वरिहिषद इति बर्हिषदः ये सुधया अधया सुतस्य सुधयेति स्वाधयाः सुतस्य तदिह इहागमिष्ठाः आगमिष्ठा इत्यागमिष्ठाः अपहोता, पितरः उपहूता इति वा हूताः पितरः सोम्यासः परिहिष्येषु निधिषु निधिषु प्रियेषु निधिष्विति निधिषु प्रियेष्विति प्रियेषु त आ आगमन्तु गमन्तु ते त इह इह श्रुवन्तु श्रुवन्तधि अधिब्रुवन्तु ते ते अवन्तु अवन्तस्मान् अस्मानित्यस्मान् अस्मान, उदीरताम् ईरतामवरे अवरौत् उत्परासः परासौत् उन्मध्यमाः मध्यमाः पितरः इतरः सोम्यासः सोम्यास ईजुरवृकाः प्रका, वृकारज्ञाः कृतज्ञास्ते कृतज्ञादिकृताज्ञाः तेन नो वन्तु भवन्तु पितरः पितरो हवेषु हवेष्विति हवेषु इदम् पितृभ्यः नमः पितृभ्य इति पितृभ्यः नमोऽस्तु अस्मरद्य अद्य ये पूर्वा ये पूर्वासः पूर्वासो ये ये पार्थिवे पार्थिवे रजसि रजस्या आनिषत्ताः निषत्ता ये नूनम् नूनम् सुवृजनासु सुवृजनासु वीक्षो सुवृजनास्विति सुवृजनासु विक्ष्विति वीक्षो अधायथाः अधानः नः पितरः पितरः परासः परासः प्रत्नासः प्रत्नासो अग्ने अग्निरतम् प्रतमाशुषाणाः आशुषाणा इत्याशुषाणाः शुचीत् इदयन् अयन्दीधिमुक्थशासः उक्थशासः क्षाम पुत्रशास इत्युर्थाशासः <उत्यद्ट्राग> क्षामा भिन्दन्तः भिन्दन्तो अरुणीः अरुणेरप अपभ्रन् द्रन् द्रन् यदग्ने अग्ने कव्यवाहन कव्यवाहन पितॄन् कव्यवाहने यक्षितावृतः तावृतयत्रितावृतः प्र च कव्यानि कव्यानि वक्ष्यति वक्ष्यति देवेभ्यः देवेभ्यश्च च पितृभ्यः पितृभ्यः पितृभ्य इति मग्ने अङ्गीडितः ईडितो जातवेदः जातवेदो वाद इति जाता वेदः अवाड्ढव्यानि हव्यानि सुरभीणि सुरभीणि कृत्वा कृतेति कृत्वा प्रादाह अदाः पितृभ्यः पितृभ्यः स्वधयाः पितृभ्यति पितृभ्यः स्वधयाते स्वधयेति स्वाधयाः ते अक्षन् अक्षन्नद्धि अद्धि त्वम् त्वन्देव एतप्रयता प्रयता, प्रयता हवीगुंषि प्रयतेति प्रायताः हवीगुंशीति हवीगुंषि मातरे कव्यैः अव्यैर्यमः यमो अङ्गिरोभिः अङ्गिरोभिर्बृहस्पतिः अङ्गिरोभिरित्यङ्गिरहाभिः बृहस्पतितृत्वभिः कृत्वभिर्वावृधानः कृत्वभिरितृत्वाभिः वावृधानैर्वावृधानः यागिश्च च देवाः वृधुर्ये ये च देवान् देवान्स्वाहा स्वाहान्ये अन्ये स्वधया सुधयान्ये सुधेति स्वाधया अनन्ये मदन्ति मदन्तीति मदन्ति प्रस्तरम् प्रस्तरमा प्रस्तरमिति प्रास्तरम् आहिताङ्गिरोभिः अङ्गिरोभिः पितृभिः अङ्गिरोभिरित्यङ्गिरहाभिः पितृभिः संविधानः पितृभिरिति पितृभिः संविधान इति संविधानः आत्वा आत्वामन्त्रा मन्त्राः कविशस्ताः कविशस्ता वहन्तु कविशस्ता इति कविशस्ताः वहन्त्वेन केना राजन् राजन् हविषः कविषामादेष्व मादयस्वेतिमादेश्वव अङ्गिरोभिरा अङ्गिरोभिरित्यङ्गिरहाभिः यज्ञे धर्मवैरूपैः वैरूपैरिह इहमादेष्व मादयस्वेतिमादयस्व इवस्वन्तकम् भुवे कुपेयः यः पिता पिता तेये अस्मिन् यज्ञे यज्ञे बर्हिषि बर्हिष्या आदिषद्य निषद्येति नीसद्य अङ्गिरसोनः नः पितरः पितरो नवग्वा अथर्वाणः अथर्वाणो भृगवः भृगवः सोम्यासः सोम्यास वयम् भृगुम् सुमतौ सुमतौ यज्ञियानाम् सुमताविति यज्ञियानामपि अपि भर्द्रे भद्रे सोमनसे स्याम श्यामेति स्याम द्वितीयकाण्डे षष्ठः प्रश्नः